अथ द्विषष्टितमः सर्गः तानुवाच हरिः श्रेष्ठो हनूमान् वानरर्षभः अव्यग्रमनसोऽयूयम् मधुसेवत वानराः अहमावर्जयिष्यामि परिपन्थिनः श्रुत्वा हनूमतो वाक्यम् हरीणाम् प्रवरोऽदः प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु अवश्यम् कृतकार्यस्य वाक्यं हनुमतो मया अकार्यमपि कर्तव्यम् किमङ्गम् पुनरीदृशम् अङ्गदस्य मुखाच्छ्रुत्वा वचनम् वानरर्षभाः साधु साध्वितिसम्भृष्टा वानराः प्रत्यपूजयन् पूजयित्वाङ्गदम् सर्वे वानरा वानरर्षभम् जग्मुर्मधुवनम् यत्र नदीवेग इव ते प्रविष्टा मधुवनम् पालानाक्रम्य शक्तितः अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् तपुः सर्वे मधुतदा रसवत्फलमाददुः उत्पत्य च ततः सर्वे वनपालान् समागतान् ते ताडयन्तः शतशः सक्ता मधुवने तदा मधूनिर्द्रोणमात्राणि बाहुभिः परिगृह्यते पिबन्ति कपयः केचित् सङ्घषस्तत्र हृष्टवत् घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथा परे केचित्पीत्वा पविध्यन्ति मधूनि मधुपिङ्गलाः मधूच्छिष्टेन केचिच्च जघ्रुरन्योन्यमुत्कटाः अपरे वृक्षमूलेषु शाखागृह्यव्यवस्थिताः अत्यर्थम् च मदग्लानाः पर्णान्यास्तीर्यशेरते उन्मत्त वेगाः प्लवगा मधुमत्ताश्च हृष्टवत् क्षिपन्त्यपि तथान्योन्यम् स्खलन्ति च तथापरे केचित्क्ष्वेडान् प्रकुर्वन्ति केचित कूजन्ति हृष्टवत् हरयो मधुना मत्ताः केचित् सुप्तामहीतले धृष्टाः केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत् कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत् येऽप्यत्र मधुपालास्यः प्रेष्यादधिमुखस्य तु तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः प्रघृष्टाश्च देवमार्गम् च दर्शिताः अब्रुवन् परमोद्विग्ना गत्वादधिमुखम् वचः हनूमता दत्तवरैर्हतम् मधुवनम् बलात् वयम् च जानुभिर्घृष्टा च दर्शिताः तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः हतम् मधुवनम् श्रुत्वा सान्त्वयामास तान् हरीन् एता गच्छत गच्छामो वानरा नतिदर्पितान् बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम् श्रुत्वा दधिमुखस्येदम् वचनम् वानरर्षभाः पुनर्वीरा मधुवनम् तेनैव सहिताययुः मध्ये चैषाम् दधिमुखः सुप्रगृह्य महातरुम् समभ्यधावन् वेगेन सर्वे ते च प्लवङ्गमाः ते शिलाः पादपांश्चैव वा पाषाणानपि वानराः गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः बलान्निवारयन्तश्च आसे दुर्हरयो हरीन् सन्दष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः अथ दृष्ट्वादधिमुखम् क्रुद्धम् वानरपुङ्गवाः अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा सवृक्षन्तम् महाबाहुमापतन्तम् महाबलम् वेगवन्तम् विजग्राह बाहुभ्याम् कुपितोऽङ्गदः मदान्धो न कृपाञ्चक्रे आर्यकोऽयम् ममेति सः अथैनम् निष्पिपेषासु वेगेन वसुधातले स भ्नबाहूर मुखो विह्वल शोणिक्ष क्षि प्रमोह महवीरो मुहूर्त कपकुंजर सकथि विमुक्स्तर्वानर्वान ऋषभ उवाचैका स्वान्गता गामो सर्वम् चैवाङ्गदे दोषम् श्रावयिष्याम पार्थिवे अमर्षी वचनम् श्रुत्वा घातयिष्यति वानरान इष्टं मधुवनं मधुवनम् ह्येतत् सुग्रीवस्य महात्मनः पितृपैतामहम् दिव्यम् देवैरपि दुरासदम् स वानरानि मान् सर्वान् मधुलुब्धान् गतायुषः घातयिष्यति दण्डेन सुग्रीवः सुहृज्जनान् बध्याह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः अमर्ष प्रभवो रोषः सफलो मे भविष्यति एवमुक्त्वादधिमुखो वनपालान्महाबलः जगामसहसोत्पत्यवनपालैः समन्वितः निमेषान्तरमात्रेण स हि वनालयः सहस्रांशुसुतो धीमान् सुग्रीवो यत्र रामम् च लक्ष्मणम् चैव दृष्ट्वा सुग्रीवमेव च समप्रतिष्ठाम् जगतीमाकाशान्निपपातः स निपत्यमहावीरः परिवारितः हरिर्दधिमुखः पालैः पालानाम् पाला परमेश्वरः सदीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् सुग्रीवस्याश्रुतौ मूर्ध्नाचरणौ प्रत्यपीडयत् शे श्रीमद्राये वाल्मीकए आदि का्यरकांडे दिवष्टित सग